नारायणीयं दशकं वन् मीटर् श्रद्धरा सान्द्रानन्दावबोधात्मकमनुपमिदं कालदेशावधिभ्यां निर्मोक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् अस्पष्टं दृष्टमात्रे पुनरुपुरुषार्थात्मकम् ब्रह्मतत्त्वं तत्तावद्भादि साक्षाद्गुरुभवनपुरे हन्तभाग्यम् जनानाम् एवं दुर्लभ्यवस्तुन्यपि सुलभदया हस्तलब्धे यदन्यत्तन्वा वाचा धिया वा ये वदुतरम सा विश्वपीडाप्त निशेषात्मा गुरपवनपुराधीश्रया सपराभ्यामकलनो निर्मल तेन तवदूतर्भूतेद्रियस्ते वपुरिति बहुश श्रूयते व्यासवाक्यम् तत्स्वच्छत्वाद्यतच्छादित परसुखचिद्गर्भनिर्भास्वरूपम् तस्मिन् धन्यारमन्ते श्रुतिमदिमधुरे सुग्रहे विग्रहेते निष्कम्बे नित्यपूर्णे निरवधिपरमानन्द पीयोषरूपे निर्लीनानेकमुक्तावलि सुभगदमे निर्मलब्रह्मसिन्धौ कल्लोल्लोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् निर्व्यापारोऽपि निष्कारणमजभजसे यत्क्रियामीक्षणाख्यां तेनैवो देदिलीना प्रकृतिरसदि कल्पापि कल्पादिकाले तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं सत्त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठरूपम् तत्ते प्रत्यग्रधाराधरललितकला यावलीकेलिकारम् लावण्यस्यैकसारम् सुकृतिजनदृशाम् पूर्णपुण्यावतारम् लक्ष्मीनिःश्यङ्गलीला निलयनममृतस्यन्द सन्दोहमन्तः सिञ्चत् वबुरनुकलये वपुरनुकलये मारुदावारनाध कष्ठाते सृष्टिचेष्टा बहुधरभवखे दावः जीवभाजामित्येवम् पूर्वमालोचितमजितमया नैव मद्याभिजाने नो चे जीवा कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं नेत्रैः श्रोत्रैश्च पीत्वा परमरसुधाम्भोधि पुरे रमेरन नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितानप्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च इत्थं निःशेषलभ्यो निरवधि कपलः पारिजादो हरे त्वं क्षुद्रं तम् चक्रवाडीद्रुममभिलषदिव्यर्थमर्थिव्रजोऽयम् कारुण्यात्काममन्यं ददति खलु परे स्वात्मतस्त्वं विशेषादैश्वर्यादिशधन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वं त्वय्युच्चैरारमन्दिप्रतिपदमधुरे छेदनास्वितभाग्यास्त्वम् चात्मा राम येवेत्यतुलगुणगणाधारशौरे नमस्ते ऐश्वर्यम् शङ्करादीश्वरविनियमनम् विश्वतेजोहराणाम् तेजः संहारि निःस्पृहैश्चोपगीतम् अङ्गा सङ्गा सदा श्रीरखिल विदसि न क्वापि दे सङ्गवार्ता तद्वादागारवासिन्मुरहर भगवच्छब्दमुख्याश्रयोऽसि सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्दगोविन्द